श्रीमद्भागवतमहापुराणं दशस्कन्धं सृत्तमं याति मनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेथ माम् आत्मा हि तीर्थे क्रियते तदैव मे बन्धस्य करमात्मगोच्वसित्यता लब्धाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यते क्रूरतते चुरुस्रवाहम् तदा वयं जन्मभृतो महीयशा नैवादितो योऽधिगमुष्यजन्मतन् न तस्य कश्चिद्दयितासृहित्तमो न चाप्रियो देशोपेक्षये बा तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपासितोऽर्थदः किञ्चाग्रजो मानवनतं यदुत्तमस्मिन् परिस्रज्य गृहीतमञ्जलौ गृहं प्रवेशाप्त समस्त सत्कृतं सम्प्रक्षते कंसकृतं सबन्धुषो तेसो कुवाच इति सञ्चिन्तयन् कृष्णं स्वफल्कतनियोध्वनि दसेन गोकुलं प्राप्त स्वर्यस्तास्तु गिरिं नृप पदानि तस्याखिल लोकपालकृतज्येष्ठामलपादरेण ददर्शगोष्ठे चित् कौतुकाले विलक्षितान्ययवांशुकुसाद्यै दर्शनाह्लादविदसम्भ्रमः प्रेम्णोर्धरो मा शुकलाकुलेक्षण रथादवस्कन्ध्य स ते सुचेष्टत त्रभोरमुन्यङ्घ्रिजजास्य होयिति देहम्भृता मे यानरथो हृत्वादम्भं भियं शुचम् सन्देशाद्यौ हरे लिङ्गदर्शनश्रोणादिभिः ददर्शकृष्णं रामं च व्रजे गोदोहनं गतौ पीतनीलाम्बरधरौ शरदम्बोरुहेक्षणौ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ सुमुखौ सुन्दरवरो बालद्वीरद्विक्रमौ ध्वजवन् भद्राङ्कुशाम्भोजये चिह्नतये घिभिर्वजं शोभयन्तौ महात्मानौ अनुक्रोशस्मितेक्षणौ उदारूम् उदाररुचिरक्रीडौ त्रग्णौ वनमालिनौ पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ प्रधानपुरुषावाद्यौ जगद्धेतुं जगद्पते अवतीलौ जगत्यर्थे से स्वांसेन बलकेशवौ दिशो वितमिराराजन् कुर्वाणौ प्रभयासुयां यथा मारकतशैणो रौप्यश्च कनकाचितौ यथा तूर्णमवप्लुप्त्य सुक्रूरस्नेहविफल तपातचरणोपान्ते दण्डवद्रामकृष्णयोः भगवद्दर्शनाह्लादवार्ष्पर्याकुलेक्षण पुलुकाचिताङ्गोत्कण्ठ्या स्वाख्यालेनाशकन्नृप भगवान्तमभिप्रेत्य रथाङ्गाङ्कृतपाणिना पाकृष्य प्रीत प्रतुं प्रणतवत्सलः शङ्कर्षणस्य प्रणतमुपगुह्य महामनाः गृहीत्वा पाणिना पाणी अनियत्सानुजो गृहम् पृष्ट्वाथ स्वागतं तस्मे निवेद्य च वराचनम् प्रक्षाल्य विधिवत्पादो माहरत। निवेद्यगां चातिथये संवाह्य श्रान्तमादितः अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभो तस्मे भुक्तवते प्रीत्या रामपरमधर्मवे मुखवासैर्गन्धमाल्ये परां प्रीतिं विधात् पुनः पप्रक्षसत्कृतं नन्द कथं स निर्नुग्रहे कंसे जीवत दासार्ह सोणपाला इवावयः यो वधीत श्वश्वं सुकान् क्रोशन्त्या असुतृ नृपकल किं नु सिद्धन्तजानां वा कुशलं विमृशामहे इत्थं श्रुणुतया वाचानन्देन शुशभाजितः अक्रूर परिपृष्टेन जहामं जहावध्वापरिश्रमं ये श्रीमद्भागुते महापुराणे पारंशां चेतायां दसंस्कन्दे पर्वार्थे क्रूरागमनं नामाष्टात्रिंशोऽध्यायः